यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ च्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ ्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ त्र्यम्बकम् यजामहे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 उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुकन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात्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 पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ ओ्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षी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 उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् र्मुक्षीय मामृता ओम त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुकन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ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 उर्वारुकमिवबन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धनात् मृत्योर्मुक्षीय मामृता ॐ हो त्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ हो त्र्यम्बकम्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 मामृतात् ॐ्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् पुर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ओ, ओ पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वा बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ च्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनम् ोर्मुक्षीय मामृतात् ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ च्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्न्मुक्षीय मामृतात् ॐ त्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ त्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॐ त्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धनात् मृत्योन्मुक्षीय मामृता ॐ त्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योन्मुक्षीय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 सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योर्मुक्षीय मामृता ॐ त्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्न्मुक्षीय मामृता ॐ त्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धनात् मृत्योर्मुक्षीय मामृता ॐ्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ओ्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिबन्धनात् मृत्योन्मुक्षीय मामृता ॐ त्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् ुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मामृतात् मामृता ॐ्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योन्मुक्षीय मामृतात् ॐ त्र्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्न्मुक्षीय मामृतात् ओ, ओ यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृता ॐ यजामहे सुकन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योन्मुक्षीय मामृता ॐ्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योर्मुक्षीय मामृता ॐ्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धना मृत्योर्मुक्षीय मामृता ॐ हो त्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धना मृत्योन्मुक्षीय मामृता ॐ्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योन्मुक्षीय मामृता ॐ्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योर्मुक्षीय मामृता ओ, ओ। यदामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योन्मुक्षीय मा मृता ओ्यम्बकम् यदामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योर्मुक्षीय मामृता ओ्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योन्मुक्षीय मा मृता यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धना मृत्योर्मुक्षीय मा मृता ओ्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिवबन्धना मृत्योन्मुक्षीय मामृता ओत्यम्बकम् यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योन्मुक्षीय मामृता ॐ्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योन्मुक्षीय मामृता ॐ यजामहि सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योर्मुक्षीय मा मृता ओ्यम्बकम् सुगन्धिम् पुष्टिवर्धनं उर्वारुकमिव बन्धना मृत्योर्मुक्षीय मा मृता